हरि ओम् श्रीजगदम्बिकायै नमः अथ देवी भागवत महापुराणे प्रथमस्कन्धे त्रयोदशोऽध्यायः सोतवाच सद्युम्बे तु दिवं व्याते राज्यं चक्रे पुरोरवा सगुण च सुरूपा च प्रजारञ्जनतत्परः प्रतिष्ठाने पुरेऽरम्बे राज्यं सर्वनमस्कृतम् चकार सर्वधर्मज्ञ प्रजा रक्षण तत्परः मन्त्रसु गुप्त तस्यासीत् परत्वाभिज्ञता तथा सदैवोत्साहशक्ति च प्रभुशक्ति तथोत्तमा सामदाना सर्वे वशगा तस्य भूपते वर्णाश्रमान् स्वधर्मस्थान् कुर्वन् राज्यं शशासः दानानि च पवित्राणि दादो ददो नराधिप तस्य रूप गुणोदार्य शील द्रवीण विक्रमान् चतुर्वशी वशीभूता चकमेतम् नराधिपम् ब्रह्मशापाभितप्ता सा मानुषम् लोकमास्थिता गुणेन तम् नृपम् मत्वा वरयामासमानिधि कृत्वा स्थित्वा तत्र वराङ्गणा एतोरणको राजन् न्यतो रक्षस्व मानदे घृतम्बे भक्षणं नित्यं नान्यत् किञ्चिन्नृपासनं नेतां च महाराज नग्नं मैथुरा भाषाबन्ध राजन् यदि भग्नो भविष्यति तदा त्यक्त्वागमिष्यामि सत्यं वेतद्ब्रमीभ्यहम् अङ्गीकृतं च तद्राज्ञा कामिन्या भाषितं त्व भाषणबन्धेर चापनुग्रह काम यया तदा लीनो वर्ष गण धर्मकर्माक त्यक्त मोहित मोहिता एक संको मही पति न सुक तया क्षण मप्यति मोहिता एवं वर्ष गणा तो स्वर्ग पाक, पाक ऊर्वशीं नागतं दृष्ट्वा गन्धर्वा नाह देवशीम् आनयद्धम्भो गन्धर्वा सर्वहि कृत्वा गृहात् तस्य भूपते समये किल ऊर्वशी रैतं स्थानं नातिशोभते येन केनाप्युपायेन ना तामनयतकामिनीम् इत्युक्ता तेथ गन्धर्वा विश्वाभरसो पुरोगम तदोगत्वा गाढे तमसि प्रत्युपस्यते जरु तौ वरुणौ देव रममाणम् विलोक्यतम् चक्रन्दु तस्तदा तौ तु रीयमाणो विहायत उर्वशी तदुपाकर्ण्यक्रन्दितम् सुतयोरिव कृपितोवाच राजानम् समयोयम् कृतो मया नष्टाहम् तव विश्वासा दृतौ चौरैर्ममो रणौ राजन् पुत्र सभो यतो तं किं क्षेशे स्त्रिया सम हठात्म्यम् कुदा तेन न पुंसा वीरमानिन वर्णौ मे चाद्य सदा प्राण एवम् विलप्य भारान्तु तं दृष्ट्वा राजा विमोहित नग्नैव ययोतो नृच्छते पृथ्वीपतिः विद्युत्प्रकाशिता तत्र गन्धर्वेणुपरवेश्मनि नग्नभूतया दृष्टौ भूपतिर्गन्तु कामय त्यक्तोरणगता सर्वे गन्धर्वा पथि स पातिव नग्नो जग्राहतो श्रान्तौ जगन् स्वगृहं पति तदाशीं गतां दृष्ट्वा विलला पाति दुःखितः नग्नं वीक्षपतिं नारि कथा सा वरवर्णिनि कृषदेशेषु बभ्रां नृपति स्वयम् तचित्त ब्वल शोचन विवश कामो भ्रम वै सक पृथ्वी कुे दशता दृष्टि सन्दृष वजन प्रा सूक्त नृपोत्तम अये धाई तिठ ठोरे न्यक् मत मन संका वशकं चास्कनागत स देहोय पतवी दूरमृत थै खादन्त्येन मृका काका त्वया त्यक्तम् अरोहयत् एवं विलपमानन्तं राजानं प्राह चोर्वशी दुःखितम् कृपणम् शान्तं कामार्तम् विवश भुशम् उर्वशी उवाच मूर्खोऽसि ज्ञानं कुत्रगतं तव तवे क्वापि सख्यं न च न विश्वासो हि कर्तव्य त्रीषु चौरेषु पार्थिवैः गृहम् गच्छ सुखम् भुङ्क्ष्व माविशा देवनः कृथा इत्येवम् बोधितो राजा न विभेदातिमोहितः दुःखम् च परम प्राप्त स्वैरे निःस्नेहयन्त्रितः सुतोवाच इति सर्वम् समाख्यातम् उर्वशी चरितम् वत् वेदे विस्तरितम् चैतत् सङ्क्षेपात् कथितम् मया इति श्रीमद्देवी भागवते महापुराणे अष्टादशसहस्राम् संहितायाम् पुरूरवस पुरुरवसौवशा चरित्रवर्णनं नाम त्रयोदशोऽध्याय श्रीजगदम्बिकायार्पणमस्तु